देवी देवीनारायणीयं दशकं वन् देवीमहिमावृत्तं वसन्ततिलकम् यस्मिन्निदं यद इदं यदिदं यदस्मादुत्तीर्णरूपमभिपश्यति यत्समस्तं नो दृश्यते च वचसां मनसश्च दूरे यद्भागितादिमहस्ये प्रणमामि तस्मै न स्त्री पुमान्नसुरदैत्यनरादयो नक्लीबन्नभूतमपि कर्मगुणादयश्च भौमां त्वमेव सदनाद्यविकार्यनन्दं सर्वं त्वया जगदिदं विततं विभाति रूपन्नतेऽपि बहुरूप भृदात्तशक्तिर्नाट्यन्तनोषि नडवत्खलु विश्वरङ्गे वर्षाणि ते सरसनाट्यकलाविलीना भक्ता अहो सहृदयाक्षणवन्नयन्ति रूपानुसारि खलु नाम ततो बुधैस्त्वन् देवीदि देव इति चासि निगद्यमाना देव्यान् त्वयैर्यस उमा कमलाधवाग्वा देवेतुषण्मुख उमापदिरच्युतो वा त्वं ब्रह्मशक्तिरपि धातृरमेशरुद्रायैर्ब्रह्माण्डसर्गपरिपालन संहृतिश्च कारयसि सुब्रु शुभ्र निज भक्षव्यचु कृपावती चौदित शुभा कर्मा तर पतने भृश में दुखम वृद्ध सुखं तव कर्म न नाभिदुःखन्त्वं ह्येव कर्मफलदा जगदां विधात्री सर्वत्र वर्षसिदयामदयेव वृष्ट्या सिक्तसुबीज इव वृद्धिमुपैधिभक्तः दुर्बीजवद्व्रजति नाशमभक् तयेव निर्घृणा न विषमा न च लोकमातः सर्वोपरीश्वरि विभाति सुधा समुद्रस्तन्मध्यदः परिवृते विविधैः सुदुर्गैः चत्रायिते त्रिजगदां भवदी मणिद्वीपाक्ये शिवे निजपदे हसिता नस्ते यस्ते पुमानभिदधादिमहत्वमुच्चैर्यो नाम गा यदि शृणोति च ते विलज्जः यश्चादनोति भृशमात्मनिवेदनन्दे सस्वान्यकानि विधुनोति यथातमूर्खः त्वान्निर्गुणाञ्च सगुणाञ्च पुमान्विरक्तो जानाति किञ्चिदपि नो विषयेषु सक्तः ज्ञेया भव त्वमिह मे भवतापभन्द्रीं भक्तिं ददस्वरदे इति प्रथमदशकः देवीनारायणीयं दशकं तु वृत्तमुपजाति रणेषु दैत्येषु हदेषु देवाः पुरा प्रहृष्टाः सहदादृशर्वाः यक्षवो यज्ञपदिं विनीताः प्रपेदिरे विष्णुमनन्दवीर्यम् दृष्ट्वा च निद्रावशगं प्रभुन्दमधिज्य चापाग्रसमर्पितास्यम् आश्चर्यमापूर्विबुधा न कोऽपि प्राबोधयत्तं खलु पापभीत्या हरेस्तदानीमजसृष्टवम्र्यामुखार्पणा कुञ्चिदचापमौर्वी भग्ना धनुश्चार्जवमापसद्यस्तेना भवत्सोऽपि निकृत्तकण्ठः कायाच्छिरस्तूत्पदिदं मुरारेः पश्यत्सुदेवेषु पपादसिन्धौ चेदः सुराणाङ्कदने निमग्नम् आहेधिशब्दः सुमहानभूच्च किमत्र कृत्यं पदि देहरौनः कुर्मः कथं वेदि मिथो ब्रुवाणान् देवान् विधाताः भवेन्न कार्यमकारणन् दैवमहो बलीयः ध्यायेदेवीं करुणार्द्रचित्तां ब्रह्माण्डसृष्ट्याधिकहेतुभूताम् सर्वाणि कार्याणि विधास्यदेन सा सर्वशक्ता सगुणा गुणा च इत्यूचुषः वेदा नुनु उःसुराश्च दिवि स्थिता देव गणांस्त्वमार्थभद्रं भवेद्वो हरिणेदृशेन दैत्यो हयग्रीव इति प्रसिद्धो मयैव दत्तेन वरेण वीरः वेदान्मुनींश्चापि हयास्य मात्रवध्यो भृशं पीडयदिप्रभावाद् दैवेन कृतं हरिशीर्षमद्य संयोज्यतां वाजि काये तदोहयग्रीव तया मुरारिर्दैत्यं हयग्रीवमरन्निहन्ता त्वमेव मुक्त्वा सदयन्तिरोधास्त्वष्ट्राकबन्धेष्वशिरो मुरारेः संयोजितं पश्यति देवसङ्खे रुद्धि दो भूत दैत्यम महन हयग्रीवनहयाो रे मुरारिस्वदनुग्रहण सदा जगन्मेदीया पदं मूर्धनि मूर्धन ओम देवी नारायणीय दशकंत्री वृत्त उपजाति जगत्सु सर्वेशतन प्रसुत्ते हर सुरारी मधुकैडभाख्यौ महाबला वपसु विजह्रतूर्द्व सहस्रय्यदचि वृत्ती वाग्बीजमन्त्रं वरदे प्रसादिताया असुरौ भवत्या स्वच्छन्दमृत्युत्वमवापतु स्थौ यकाम्बुधौ तौ ता। तरलोर्मिमाले निमज्जनोन्मज्जनखेलिलोलौ यदृच्छया वीक्षितमब्जयोनिम् रणोत्सुका ऊच दुरिद्धगर्वौ पद्मासनं वीरवरोपभोग्यं न भीरुभोग्यन्नवराकभोग्यं मुञ्चेदमद्यै वनयासि चेत्त्वं प्रदर्शयस्वै युधिशौर्यवत्वम् इदं समाकर्ण्यभयाद्विरिञ्च सुषुप्तिनिष्पन्दमोखशक्रिं प्रबोधनार्थं हरिमिद्धभक्र्या तुष्टावनैवाचलदम्बुजाक्षः अस्पन्दतात्त्वस्य कयापि शक्रिया कृतेदि मत्वा प्रबोधयिनं हरिमेव मुक्त्वा स्तोत्रैर्विचित्रैर्भवतीमनौषीत् नुदिप्रसन्नाब्जभवस्य तूर्णन्निःसृत्य विष्णोः सकलङ्कतस्त्वं दिवि स्थिदात्तत्क्षणमेव देवो निद्राविमुक्तो हरिरुद्धितोऽभूत् अधैषभीतं मधुकैडभाभ्यां विरिञ्चमालोक्य हरिर्जगाद अलम्भयेनाहमिमौ सुरारी कन्दस्मि शीघ्रं समरेऽत्र पश्य एवं हरौ तयोरविज्ञायबलमुरारिर्युद्धोऽद्यदो भूतजरक्षणार्थं बिभेमिरागादिमहरिपुभ्यो जेतुं यदिष्ये समिमान् सुशक्तान् तदर्थशक्त्रिं मम देहि नित्यन्निद्रालसोमा च भवानि मातः ओ देवी देवीनारायणीयं दशकम् फोर् त्वं तामसी सुप्तरमाधवाङ्गजाश्यामारुचामोहनताम्रलोचना ये कार्णवे घोररणोत्सुकान् हरिं दैत्यौ मुखी समयक्षधाः। पश्यत्यजे बाहुरणं मुरारिणा कृत्वा मधुश्रान्तिमवापसत्वरम् अभ्यत्ययुद्धं कुरुते स्म कैडभश्रान्ते च तस्मिन्न कृता हवं मधुः एवं मुहुःसङ्गरविश्रमावुभौ पर्यायदो वर्ष सहस्रपञ्चकं ग्लानं विना चक्रदुरच्युधक्रमाद्विश्रान्तिमिच्छन्न सुरौ जगादतौ श्रान्तेन भेदेन च बालकेन च प्रभुः पुमान्नैव करोति द्वौ कृतविश्रमयुवा मेघकरोम्येव निरन्तराहवम् ज्ञात्वा हरिं श्रान्तमुभौ विदुरतः सन्तस्ततुर्विश्रमसौख्यवांस्ततः त्वामेव तुष्टाव कृपातरङ्गिणीं सर्वेश्वरीं दैत्यजयाय माधवः देवी प्रसीदै शरणे जितोऽस्म्यहं दैत्यद्वये नाब्ज भवञ्जिकां सुना सर्वङ्कडाक्षैस्तव साध्यमत्र मां रक्षेदि वक्तारमभाषधा युद्धं कुरु त्वञ्जितौ मया भृशं सम्मोहितौ वक्र दृश्येत्ययन्त्वया सञ्चोदितो हृष्टमनामहार्णवे तस्तौ प्रणायाय यदुश्च दानवौ भूयोऽपि कुर्वन्नमच्युतोहसन् कमातुरौते मुखपद्मदर्शनात् तावाचतुष्ठोऽस्म्यतुलौ रणे युवान् ददाम्यहं वां वरमेश तवोचतुर्विद्धिहरेण याचकाह्वा ददावस्तव वाञ्छितं वरं नासत्यवाचौ स्व इति रिदो हरिस्त्वां संस्मरन् शत्रुजिगीर्षया ब्रवीत् वरं यच्छदमध्यमे यतो वध्यौ युवां स्यादमिदीरिदावुभौ दृष्ट्वाप्सुलीनं सकलं समुचतुस्त्वं सत्यवाङ्नौ जगिनिर्जले स्थले अस्त्वेवमित्यादृतवाङ्मुदाहरिस्वोरौ पृथा उन्नमिदे कृत्वा रिणा तच्चिरसी तदा चिनत्स्वच्छन्दमृत्यु तव रागश्च सदा ममाम्बिके दैत्यौ हृदि स्तोत्र आभ्याम करोत्येव रणञ्जयत्त्वयम् तुभ्यं महाकाळिनमः प्रसीदमे देवीनारायणीयं दशकं फैव् जादात्सुतेलामनुसप्तमस्य सम्प्रार्थितो नेनमुनिर्वसिष्ठः शम्भोक्कडाक्षेण सुधाकुमारञ्चक्रे सकालेन बभूव राजा स्युद्युम्ननामा मृगया विहारी गदोहयारूढ इलावृतं सः स्त्रीत्वं पुनः प्राप्य सुतं हिमांशोर्वव्रेपदिम् पुत्रमसूतचैषा न्यवेदयत्सा गुरवेशिष्ठायैषा कदाचिन्निज पुंस्त्वकामं तत्साधनार्थं हरमेव दध्यौ इलावृतं मा पुरुषः प्रयादु प्रयादि चेत्सोऽस्त्वबला तदैवं मया निश्चितमेव सौम्य गौर्याः प्रसादाय भवान् प्रियो मे न पक्षभेदोत्तरममास्ति गौरी भवांश्चतृप् तौ भवतां मदीयौ इतः परं मनोरपत्यं मां सं पुमान् स्याद्वनिता च मासं एवं शिवोक्रेण मनोरपत्यं लब्ध्वा च पुंस्त्वन्धरणीं शशास स्त्रीत्वे जहर्म्येषु निनायकालम् जनो न चैनन्नृपमभ्यनन्दत् पुरुरवस्यात्मसुदेर्पयित्वा राज्यं विरक्तो वनमेत्यभोपः श्रीनारदान्लब्धनवार्णमन्त्रो भक्त्या सदध्यौ भवतारिणीं त्वाम् सिंहाधिूाणाजने सुप्रसन्नावीक्ष नुवा ज भक्तियास्रपुंस्वे शे भेदसाज्यम चाते शौर्य न वीर्य नजपौष मे नैवास्ति सहजातिक्षा मूठो न जानाम्यशुभं शुभं च देयन्त्वयामे त्वयामे शुभमेव मातः पश्यानि मादः प्रवरान् गुरुंस्ते कारुण्यतो मां सुपथा नयन्तु सत्सङ्गसम्भाविदचित्तवृत् भवा नम प्रसीद ओ दी नारायणीय दशक सिक्स दिछया दीपुल्यवाचा पराशराष्णुपुराणकर् मुनेर्हरिर्लोकहिताय दीपाद्यथा प्रदीपो जनिकृष्णनामा वेदं चतुर्भाव्यदधत् स व्यास इति प्रसिद्धः वेदान्तसूत्राणि पुराणजालं महेदिहा सञ्च महांश्चकार तपःप्रवृत्तः कलविङ्कपोदं मात्रा पश्यन्न धन्या मनपत्यतां स्वां सपुत्रभाग्यातिशयं च दध्यौ सत्पुत्रलाभाय तपश्चिकीर्षुस्तीव्रह्महा समीपमेत्य आराधनीः क इति क्षणं स चिन्तातु लोकगुरुस्थिदोऽभूत् श्रीनारदस्तत्र समागतस्त्वत्कृपाकडाक्षाङ्कुरवन्महर्षिः अर्घ्यादिसम्पूजित आसनस्थोव्यासेन पृष्टः प्रहसन्निवाः किं चिन्तया कृष्णभजस्व देवीं कृपावधि वाञ्छि ददानदक्षा अहेदुरेषा खलु सर्वहेतुर्निरस्तसाम्याधिशयामिरीहा कैषामहाशक्तिरिति प्रसिद्धा यदा ज्ञया ब्रह्मरमेशरुद्राः ब्रह्माण्डसर्गस्थितिसंहृतीश्च कुर्वन्ति काले न च ते स्वतन्त्राः यस्याश्च िभिरेव सर्वकर्माणि कुर्वन्ति सुरा सुराद्याः मर्त्या मृगा कृष्णपदत्रिणश्च शक्रेर्विधेहाक इह विधेयः प्रत्यक्षमुख्यार्न च न वेदशास्त्राध्ययनेन चापि भक््यैव जानादि पुमान्महेशीम् तामेव भक््र्या सततं भजस्व सर्वार्धतां कृष्णतवास्तु भद्रम् इत्यूच्युषि ब्रह्मसुदे गे सव्यासस्तपोर्ध्व गिरिमारुरोह इहास्मि पर्याकुलचित्तवृत्तिर्गुरुन्न पश्यामि महत्तमं च सन्मार्गतो मां नय विश्वमादः प्रसीदमे त्वां शरणं व्रजामि ॐ देवीनारायणीयं दशकं सवन् कृष्णस्य तस्या रणितसुखाख्यस्तव प्रसादाद्दचनिष्ठपुत्रः पृष्टो मुनिर्मङ्गलकर्मचक्रे तत्रादिते या ववृषुसुमानि के जिजघुः केचन वाद्यघोषं चक्रुश्च नाके वायोर्वव वा स्पर्श सुखः सर्वजनाः प्रहृष्टाः बालस्ससद्यो स सद्यो ववृधे सुचेदा बृहस्पतेरात्त समस्तविद्यः दत्त्वा गुरुदक्षिणाञ्च प्रत्यागतो हर्षयदि स्मता तं युवानमेकान्ततपःप्रवृतं व्यासः कदाचिच्छुकमेव मूचे वेदांश्च शास्त्राणि च वेत्सि पुत्रकृत्वा विवाहं भव सद्गृहस्थः सर्वाश्रमाणां कवयो विशिष्टा गृहाश्रमं श्रेष्ठतरं वदन्ति तमाश्रितस्तिष्ठति लोकयेष यजस्वदेवान यजस्वदेवान् विधिवत्पिदृंश्च तवास्तु सत्पुत्रऋणादहञ्चमुच्येयमान् त्वं सुखिनं कुरुष्व पुत्रः सुखायात्र परत्र च स्यात् त्वां पुत्रतीव्रैरलभे किञ्च प्रमादीनि सदेन्द्रियाणि हरन्ति चित्तं प्रसभं नरस्य पश्यन्पिदामे पिदा मे जननीं तपस्वी पराशरोऽपि य आश्रमादाश्रममेदि तत् तत्कर्माणि कुर्वन् स सुखी सदा स्यात् गृहाश्रमो नैव च बन्धहे दुस्त्वया च धीमन् क्रियतां विवाहः एवं ब्रुवाणोऽपि सुखं विवाहाद्यसक्तमाज्ञायपि देवरागी पुराणकर्ता चगद्गुसमया निम्नोश्रु विलोचनोभू भोगेशुस्पृहतालो करवाणी पाप माधता मांदवदेवी माया माधिनाना ओम् देवी ओरायणीयम् दशकम् एत् अथाह कृष्णशृणुचिन्तयालङ् गृहाश्रमस्ते न च बन्धकृत्स्यात् बंधा बन्धस्य मुक्तेश्च हे दुर्मनो हेदुर्मनोजयार्थम् भज विश्वधात्रीम् यस्याः प्रसादे सफलम् समस्तम् यदप्रसादे विफलम् समस्तम् माहात्म्यमस्या विदितम् जगत्सु मया कृतम् भागवतम् शृणुत्वम् विष्णोर्जगत्येकसमुद्रलीने बाल्यशयानो वडपत्र एकः स्वबालताहेदु विचारमग्नशुश्राव कामप्यशरीरि वाचम् सनातनं सत्यमहं मदन्यत्सत्यं न च स्यादहमेव दृष्टिरेष स्मिताननान् त्वाञ्जननीन्ददर्श चतुर्भुज शङ्खगदारिपद्मधरा कृपाद्यैः सह शक्रिजालैः स्थिता जलोपर्यमलाम्बरा त्वम् प्रहृष्टचित्तम् हरिमेव माथा किं विस्मये नाच्युद विस्मृताहम् त्वया पराशक्रिमहाप्रभावात् सा निर्गुणावान्मनसोरगम्या मां सात्विकीं चक्रिमवेहि लक्ष्मीं श्रुतस्त्वया यस्त्वशरीरिशब्दो हितायते देवतया स उक्तः अयं हि सर्वश्रुतिशास्त्रसारो मा विस्मरेमं हृदि रक्षणीयम् नादः परञ्ज्ञेयमवेहि किञ्चित् मे वचस्त्वं त्वन्नापि पद्मा द्रुहिणो भवेत् स कर्ता तत्समस्तम् भ्रूमध्यदः पद्मभवस्य कोपात् शुद्रो भविष्यन् सकलं हरेश्च देवीं सदा संस्मरतेस्तु भद्रमेवन्निगद्याशु तिरोदधाथ हरेरिदज्ञानमजस्य लब्धमजत्सुरर्षेश्च तदो ममापि मया त्विदं विस्तरतः यत्सूरयो भागवतं वदन्ति देव्यामहत्त्वं खलु वर्ण्यतेऽत्र यद्भक्तिमाप्तस्य गृहे न बन्धः यद्भक्तिहीनस्त्वगृहेऽपि बद्धो मुक्तो जनको गृहस्थः विदेशराजन्तमवाप्य पृष्ट्वा स्वधर्मशङ्काः परिहृत्य धीरः फलेष्व सत्थक् कुरु कर्म आश्रमात् स प्रस्थाय वैदेहपुरं समेत्य प्रत्युद्गतः सर्वजनैर्नृपायन्यवेदयत्त्वागमनस्य हेतुम् पृहस्थधर्मस्य महत्त्वमस्माद्विज्ञाय धीमान् सशुको निवृत्तः पित्राश्रमं प्राप्य सुतां व्यासे व्यासेदिहृष्ठे गृहिणीं चकार उत्पाद्यपुत्रां चतुरः च चा। गृहस्थधर्मान् विधिनाचरन् सः प्रदाय चैनां मुनयेऽनुभाय बभूवकाले कृतसर्वकृत्यः इत्वा श्रमन्तादमपि शशैलशृङ्गे तपस्वी सहसोत्पतन् खे बभौ सभास्वानिव तद्वियोगखिन्नं ममेह विक्षिप्तमधीरमार्थं कर्तव्यमूढोऽस्मि सदा शिवे धीरं कुरुत्वं वरदे नमस्ते देवी देवीनारायणीयं दशकं नयन् ये कार्णवेस्मिन् जगदि प्रलीने त इत्यौ परिर्ब्रह्मवधोद्यतौ तौ जफानदेवि त्वदनुग्रहेण त्वत्प्रेरिता आरुहुस्तमेरे स चोत्पदन्व्योम्नि चचारशीघ्रम् वैमानि अदृष्टपूर्वा नितरां स्त्रिमूर्तीं स्थानानि तेषामपि दृष्टवन्तः त्रिमूर्तयस्तेजविमोहमापुः प्रापो विमानश्च सुधा समुद्रं त्वद्भ्रूलदालोलतरङ्गमालं त्वदीय मन्दस्मिद चायुफेन त्वन्मञ्चुमञ्चीरमृदुस्वनाढ्यं त्वत्पादयुक्मोपमसौख्यदं च तन्मध्यतस्ते ददृशो विचित्रप्राकारनानाद्रुलता परीतम् मणिद्वीपमदृष्टपूर्व क्रमाचिवे सखी स्रुतम वां फरीराहदात वयमदनूनम सुधा सुद्रोयमनपुण्य जगन्मातृनिवास भूमि सादृश्यते रागिजनैरधृश्या मञ्चे निषण्णा बहुशक्तियुक्ता येषैव दृक् सर्वमिदं च दृश्यमहेतुरेषा खलु सर्वहेतुः बालश यानो वडपत्र एक एक अर्णवे पश्यमि ययैव मात्रा परिलालितोऽहमेनां समस्तार्ति हरां व्रजेम रुद्ध्यामहे द्वारि यदि स्तु वामस्तत्र स्थिदा एव वा वयं महेशीम् इत्यच्युदेनाभिहिदे विमानस्तद्वोपुरद्वारमवापदेवि आयाम्यहञ्चित्तनिरोधरूपविमानतस्ते पदमद्वितीयं न केनचिद्रुद्धगदो भवानि त्वामेवमादशरणं व्रजामि देवी देवीनारायणीयं दशकम् टन् तदो विमाना विष्णुरुद्रास्तद्गोपुरद्वार्यवरुह्य सद्यः स्त्रिहः कृदा देवि तवेच्छयैव सविस्मयास्त्वन्निकडं समीयुः कृतप्रणामास्तव विश्वं प्रतिबिम्पितन्नते विलोक्य साश्चर्यममोकवाग्भिः पृथक् पृथक् नुदिप्रसन्ना निजसर्गशक्तिं महासरस्वत्यभिधामजाय रक्षार्थशक्तिं हरये महालक्ष्म्याख्याञ्चलीला निरदे गौरीं महाकाल्यभिताञ्च दत्वा संहारशक्रिं गिरिशाय मातः नवाक्षरम् मन्त्रमुदीरयन्ती बद्धाञ्जलीं स्थान् स्मितपूर्वमार्थ ब्रह्मन्हरे रुद्रमदीयशक्तित्रयेण दत्तेन सुखम् भवन्तः ब्रह्माण्डसर्गस्थिति संहृतिश्च कुर्वन्तु मे शासनया विनीताः मान्यां भवद्भिः खलु शक्तयो सकलं विनिन्द्यं स्मरेतमां सन्ददमेव मुक्त्वा स्त्रिमूर्तीन् न यस्ते भवदीन्निवृत्ताः पुंस्त्वं गदा आरुरुहुर्विमानं सद्यस्तिरोदासुधा समुद्रोद्वीपो विमानश्च स्भूवुः ये कार्णवे पङ्कजसन्निधौ च हतासुरे ते खलु तस्तिवांसः दृष्टन्नु सत्यं किमु बुद्धिमोहस्वप्नो नु किं वेदि च नव्यजानन् तदस्त्रयस्ते खलु सत्यलोकवैकुण्ठकैलासकृताधिवासाः ब्रह्माण्डसृष्ट्यादिषु दत्तचित्तास्त्वां सर्वशक्तामभजन्द देवी सुधासमुद्रन्तरलोर्मिमालं स्थानं मणिद्वीपमनोपमन्दे मञ्जे निषण्णां भवतीं च चित्ते पश्यानि ते देवीं Om